अथ पञ्चदशोऽध्यायः उत्तरभारते पर्यटनं स्वस्याशयप्रचारार्थं स्वामिवर्यस्य मानसे दिनेषु तेषु वर्तन्तपद्धत्यो बहुशङ्क तदर्थं नानुकूल तस्यारोग्यस्थितिस्तदा उपदिष्ट सभि सजामिश्रम क्रियतामिति अल्मोरानामुकस्थानं बहुयोग्यं च तत्कृते कैश्चिच्छिष्यैष सामीतस्थलं गतवातः अल्मोरायाम् अवस्थाय हिमालयविलोकनं स्वामिना विहितं येन मनःशान्तिमवापसः विशिष्टपर्वतस्यास्य विदूरम् अपि दर्शनम् आत्मोत्कर्षं च वैराग्यभावं सृतिमानसे एवं सत्यपि तत्यम् एतेषु दिवसेषु हा दिक्षुब्धम् अभवत् किञ्चित् सम्भवेन अमेरिकाप्रदेशस्य क्रिस्तधर्मप्रचारका केचित् वदन्ति द्वेषपूर्वकम् इत्येवं स्वामिनः शिष्यात् तत्प्रदेशनिवासिनः व्यज्ञापयन् स्वामिवर्यम् अत्यन्तं खेदपूर्वकम् चिकागोधर्ममेलाया बारोश आख्यसभापतिः दुष्प्रचारकसङ्घस्य मध्ये भूदिति सूचितम् असूया जातमेवासीदिदं प्रो दोषप्रचारणम् यसो यस्वामिनारब्धं तेभ्यो न तद रोचत ज्ञात्वेदं स्वामिवर्यस्तु किञ्चिद्दुःखाकुलोऽभवत् कर्मणो गतिरित्युक्त्वा निश्चिन्त सतत परम् आरोग्यं तस्य समृद्धम् अल्मोरावासहेतुनां व्यायामं च समाधिं च प्रत्यहं कुरुते स्मृतः समाजहितकर्माणि तथा धर्मप्रचारणं निजशिष्याश्च मित्राणि कुर्वन्ति विमलात्मना इत्येवं विधवार्तास शृणोति स्म दिने दिने एतेन स्वामिवर्यस्तु सन्तुष्टहृदियोभृतं प्रचारयितुम् आदर्शान् वेदान्तधर्ममूलकान् स्वामिवर्यसमारेभे जात्रामुत्तरभारते पञ्चाबदेशे प्रथमं काश्मीरे च ततः परम् चक्रवात चक्रवातसमायात्रा स्वामिवर्येण साधिता कथं वा हिन्दुधर्मस्य मूलतत्त्वानि विस्मरन् अन्धविश्वासजटिलैकर्मणि व्यापृतो जनः इत्यस्मिन् विषये स्वामी काश्मीरे प्रत्यपादयत् नवीनदयित तत्तत्त्वं च पठितुं योनो निरादिशत् खेत्रेत्यस्मिन् स्थले तेन नर्मभावेन भाषितम् अधुना पाकशालास्ति हिन्दूनां देवमन्दिरम् आराधनावस्तु हन्तपाचकभाजनम् परिवर्तनमेतस्या स्थित्या भवितु मर्हते। लाहोरे स्वामिवर्येण वेदान्तविषयोपरि भाषणं बहुविख्यातं घटिद्वेमितं कृतं। विश्वासं प्रथमं वर्ते तद्वारा जगदीश्वरे प्रेतामिति विद्यार्थी समूहं उपादिशत् ततः परं स देशादि स्थानं गतो यपि अधिवेदं स शिष्येभ्य तत्र वर्गमचालयत् पश्चात्स दिल्ली नगरम् आल्वारं च आस्थानं निजशिष्यस्य कीर्तिराजस्य यातवान् नृपेण सत्कृतः स्वामी राजकीयविधौ तथा राजा धनं बेलुर्मठनिर्माणमुद् मुद्धिसन् बहूनि तथा शिष्या चिरन्तनान् स्वामिवर्योदर्शापि स्वकीयभ्रमणान्तरे कृषङ्गं गड्डम् अजमीर्डं जोधपुरम् आदिस्थलान्यपि गतस्य भाषणं तत्र सर्वत्र कृतवान् सु च वेदवेदान्तमाहात्म्यं हिन्दुधर्मविशिष्टताः इत्येतान् विषयान् स्वामी विस्तरेण निरूपयत् आम्नायं पर्वमस्माकं मणियामो वयं यदि भविष्यच्छोभनं नूनम् अस्माकं शाश्वक्तवान् व्यक्तिस्वभावनिर्माणं गौरवेण समीक्षितुं यत्र यत्र गतः स्वामी तत्र तत्र स आदिशत् सेवनस्य तथा त्यागबोधस्यापि प्रधानतां सोत्साहं नवदस्वामी मुख्यतस्तरुणान् जनान् संस्कृतज्ञानगरिमास्वामिना विशदीकृतः तद्ज्ञानेन विना हिन्दुसंस्कृते सासङ्गताम् विवाहो हिंदू हिन्दूनामैक्यवृद्धये वृद्धये यदि प्रोक्तं स्वामिवर्येण कुत्र चेत् हिन्दो मुस्लिं धर्माणाम् ऐक्यं भवितुमर्हति अद्वैततत्प्रसिद्धान्तम् अनुसृत्येति तन्मतिः वेदान्तात्मकं नस्ति वेदान्तात्मकमस्तिष्क इस्लामीकवपुस्तथा त्वयोर्द्वयोर्मनोर्दृष्ट्या भाविसङ्घं ददर्श प्रयाणानन्तरं तेन शिष्याणां शिक्षणं कृतम् एकीकृतानि कर्माणि समारब्धानि तेन च ये शिष्य स्वामिवर्यस्य विदेशेभ्यः समागताः स्वामिपादेन ते सर्वे वासं यात्रां चक्रिरे मठे वाण्यनिवासे वा विश्रमं न च लब्धवान् नैकसन्दर्शका नित्यं स्वामिनं द्रष्टुमागताः अकरोत् पत्रसंवादम् एतन्मध्येभ्य सञ्च स च विलेखनिजहस्तेन पत्राणि सतसो ह्यपि विदेशशिष्यसङ्घस्य मध्ये तु प्रमुखाऽभवत् कुमारीमाल्योन्नाम स्वामिवर्यप्रशंसिका नैपुण्यं शान्तता तस्य स्वामिनाप्यभिनन्दिताम् आजीवनान्तं सततं स्वामिनं स्मरति स्म सा पाश्चात्यशिष्यसङ्गस्य मध्ये किन्तु सुनिश्चितं कुमारीमागरत्नो बलस्मरणार्हायु सर्वथा वर्गेषु स्वामिनो तड्डन् प्रे नित्यमुपस्थिता सा भव स्वामिवर्यस्य यथार्थाध्यात्मनन्दिनी भारते स्वामिवर्यस्य कर्मार्थेन जि जीवनं समर्पयितुं शकलं निर्णीतं शृणं तया क्लेशास्य विविधा नूनं सोढव्या भारते तया प्रागेव स्वामिना दत्ता इत्येवंविधिसूचनाः विगण्यय्य समं भारतं सा समागता निवेदिता चेतिनां तस्यै स्वामी ददावपि भारतीयजना प्रेम बहुमानपुरसरम् एतेन नाम ध्येयेन स्मरेयुस्तामिति ध्रुवं पाश्चात्यशिष्यैरितरैः सहसा लब्धवत्यपि विवेकानन्दवर्यस्य शिक्षणं बहु दुष्करम् अखिलान्तान् विदेशीयान् स्वामिवर्यस्ततः परं जनन्या शारदादेव्या सम्पर्काय समादिशत् स्वकीयबालकत्वेन ते जना स्वीकृता स्यां प्रतिदिनं यथास्वामि स्वामी सन्द्रष्टुं तेषां हृदि भवेत्प्रेम भारतं प्रति सर्वदा विदेशशिष्यानित्येवं स्वामिवर्य उपादिशत् भारतीयमनोभावं स्वीकुर्यात् परिपूर्णतः उद्बोध्यदेवं च स्वामिवर्यो निवेदितां भाषा च भक्षणं वस्त्रं शीलान्यन्यविधेयानि च हिन्दूनां क्षेमादातुं स्वामिना सा प्रचोदिता अन्नभूत्प्रथमं क्लेशम् एतस्मिन् विषये तु सा स्वामिवर्यप्रभावेण